रजताभाय विद्महे भृगुसुताय धीमहि तन्नः शुक्रः प्रचोदयात् अस्य श्रीशुक्लकवचमहामन्त्रस्य भरद्वाजऋषिः अनट्टुप्छन्दः शुक्रो देवता हाम् बीजम् ह्रीम् शक्तिः भ्रूम् कीलकम् मम शुक्रग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः शुक्रम् चतुर्भुजम् देवम् साक्षमादाकमण्डलम् दण्डहस्तम् च वरदम् दुतिजालसुशोभितम् शुक्लाम्बरसरम् पूज्यम् शुक्लबाल्यानुलेपनम् वज्राभरणसंयुक्तम् किरीटमुक्रोज्ज्वलम् श्वेतवाहरसारूढम् मेरुम् यान्तम् प्रदक्षिणम् पद्मस्तम् चिन्तयाम्यहम् मृणालकुन्देन्दुभयोहिमप्रभम् सिताम्बरम् स्निग्धबलक्षमालिनम् समस्तशास्त्रश्रुतितत्त्वदर्शनम् याजे क्रविम् वाञ्छितवस्तु सिद्धये शिरो मे भार्गवः पातु कालम् पातु ग्रहाधिपः नेत्रे दैत्यगुरुः पातु श्रोत्रे श्रीचन्दनद्युतिः पातु मे नासिकाम् काव्यो वदनम् ीकण्ठभक्तिमान्धिः पातु वक्षो योगविदाम्बरः रक्षमालाधरो रक्षेत् मे च कृपाकरः गणिम् मे पातु विश्वात्मा शक्तिनी सर्वपूजितः जानुनी तु भृकः पातु जङ्घे मे महताम्बरः गुल्फो गुणनिधिः पातु पादो, पादो मे पाण्डराम्बरः सर्वाण्यङ्गानि मे पातु शुक्रः कविरहर्निशम् ययिदम् कवचम् दिव्यम् परे श्रद्धासमन्वितः न तस्य जायते पीडा भार्गवस्य प्रसादतः